देव्याः कवचम् ओ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनष्टुप्छन्दः चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम् दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बा प्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ओम् नमश्चण्डिकायै मार्कण्डेय उवाच ओम् यद्गुह्यम् परमम् लोके सर्वरक्षाकरम् नृणाम् यन्न कस्यचिदाख्यातम् तन्मे ब्रूहि पितामह ब्रह्मोवाच अस्ति गुह्यतमम् विप्रसर्वभूतोपकारकम् देव्यास्तु कवचम् पुण्यम् तच्छृणुष्व महामुने प्रथमम् शैलपुत्री च द्वितीयम् ब्रह्मचारिणी तृतीयम् चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् पञ्चमम् स्कन्दमातेति षष्ठम् कात्यायनीति च सप्तमम् कालरात्रीति महागौरीति चाष्टमम् नवमम् सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अग्निनादह्यमानस्तु शत्रुमध्ये गतोरणे विषमे दुर्गमे चैव भयार्ताः शरणम् गताः न तेषाम् जायते किञ्चिदशुभम् ऋणसङ्कटे नापदम् तस्य पश्यामि शोकदुःखभयम् न हि यैस्तु भक्त्या स्मृता नूनम् तेषाम् वृद्धिः प्रजायते स्मरन्ति देवेशि रक्षसे संशयः प्रेतसंस्था चामुण्डा वाराही महिशासना ऐन्द्रे रजसमारूढा वैष्णवी गरुडासना माहेश्वरी वृषारूढा कौमारीशिखिवाहना लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंससमारूढा सर्वाभरणभूषिता इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः शङ्खम् चक्रम् गदाम् शक्तिम् च मुसलायुधम् हेटकम् तोमरम् चैव परशुम्पाशमेव च कुन्तायुधम् त्रिशूलम् च शार्ङ्गमायुधमुत्तमम् दैत्यानाम् देहनाशाय भक्तानामभयाय च भारयन्त्यायुधा नीत्थम् देवानाम् च हिताय वै नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे महाबले महोत्साहे महाभयविनाशिनी त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भयवर्धिनि प्राच्याम् रक्षतु मामैन्द्रि आग्नेय्यामग्निदेवता दक्षिणेवतु वाराही नैवृत्याम् खड्गधारिणी प्रतीच्याम् वारुणि रक्षेत्वायव्याम् मृगवाहिनी उदीच्याम् पातु कौमारी ऐशान्याम् शूलधारिणि उर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा एवम् दश दिशो रक्षेत् चामुण्डा शववाहना जया मे चाग्रतः पातु विजया पातु पृष्ठतः अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योतिनि रक्षेदुमामूर्ध्नि व्यवस्थिता मालाधरीललाटे ला च भ्रुवौ रक्षेद्यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी कवोलौकालिका रक्षेत् कर्णमूले तु शाङ्करी नासिकायाम् सुगन्धा उत्तरोष्ठे चर्चिका अधरे चामृतकला जिह्वाया चा सरस्वती दंता कौम कंठदेशे तो, तो चंडिका घटिचिघंटा च महामताे काम चिबुक रक्षे दवाचं मे सर्वंग ग्रीवाया भद्रकाी चृष्ठवशे धनुर्धर नीलग्रीवा बहिः नालिकाम स्कंधयो नालिकाम् नलकूबरी स्कन्धयोः खड्गिनि रक्षेत् बाहूमे वज्रधारिणी हस्तयोर्दण्डिनी रक्षेदम्बिकाचाङ्गुलीरुजा नखा चूलेश्वरी रक्षेत, पुक्षौ रक्षेत् कुलेश्वरी स्तरौ रक्षेन्महादेवी मनःशोकविनाशिनी हृदये ललिता देवी उदरे शूलधारिणि नाभौ च कामिनि रक्षेत् दुःख्यम् दुह्येश्वरी तथा पूतनाकामिकामे ध्रम् गुदे महिषवाहिनी कट्याम् भगवती रक्षेत् जानुनी विन्ध्यवासिनि जङ्घे महाबलारक्षेत् सर्वकामप्रदायिनि गुल्फयोर्नारसिंही च पादपृष्ठेतु तैजसी पादाङ्गुलीषु श्रीरक्षेत्पादाधस्तलवासिनी नखान्दंष्ट्राकराली च केषांश्चैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचम् तथा रक्तमज्जावसा मांसान्ध्यस्थिवेदांसि पार्वती अंत्रणी कालरात्रिश पित मुकुटेवरी पद्वती पद्मकोशे कफे चूड़ाणिस्ता ज्वाला मुखी नख ज्वालाम भेद्यासंधिशो शुक्रम ब्रह्मा मे रक्षे छायां छत्रेश्वरी तथा अहंकारं मनो बुद्धि रक्षेन्मे धर्मारिणी प्राणापानो तथा व्यानमुदानम् च समानकम् वज्रहस्ता च मे रक्षेत् प्राणम् कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वम् रजस्तमश्चैव रक्षेन्नारायणी सदा आयु रक्षतु वाराही राही धर्मम् रक्षतु वैष्णवी यश कीर्ति ली धनम विद्याणी गोत्रींद्राणी मे रक्षे रक्षतु भैरवी पंथनमंसुपथा रक्षेन्माग क्षेमकथाजद्दे महालक्ष्मीर्जया स्थिता रक्षाहीनम् तु यत् स्थानम् वर्जितम् कवचेन तु तत्सर्वम् रक्ष मे देवि जयम् दीपापनाशिनी परमेकम् न गच्छेत्तु यदीच्छेत् शुभमात्मनः कवचेनावृतो नित्यम् यत्र यत्रैव गच्छति तत्र तत्रार्थलाभश्च विजयः यम् यम् चिन्तयते कामम् तम् तम् प्राप्नोति निश्चितम् परमेश्वर्यमतुलम् प्राप्स्यते भूतले पुमान् निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् इदम् तु देव्याः कवचम् देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यम् त्रिसन्ध्यम् श्रद्धयान्वितः दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः जीवेद्वर्षशतम् साग्रमपमृत्युविवर्जितः न शश्यन्ति व्याधयः सर्वे रूता विस्फोटकादयः स्थावरं जंगमं चैव चापि यद्विषम् अभिचाराणि सर्वाणि मंत्रयंत्रण भूतले भूचरा खेचरा जलजाचोपदेशि डाकिनी शाकिनी तथा अंतरक्षोरा डाकि महाबलाशाचास् यक्ष गारा ब्रह्म राक्षसवेतालाः कूष्माण्डाभैरवादयः नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञस्तेजो वृद्धिकरम् परम् कृत्वा तु पुरा यावद्भूमण्डलम् धत्ते सशैलवनकाननम् तावत् तिष्ठति मे दिन्याम् सन्ततिः पुत्रपौत्रिकी देहान्ते परमम् स्थानम् यत्सुनैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यम् महामाया प्रसादतः लभते परमं रूपं शिवेन सह ओ कवचम् सम्पूर्णम्